सत्सङ्गतिः सुखाय कस्मिंश्चित् ग्रामे गोविन्दः मुकुन्दः च इति मित्रद्वयम् आसीत् गोविन्दः बुद्धिमान् परन्तु सः स्वबुद्धेः उपयोगं स्वार्थलाभाय करोति स्म मुकुन्दः तु मन्दबुद्धिः सः अधिकं चिन्तनम् अकुर्वन् गोविन्दस्य वचनेषु विश्वासं करोति स्म कदाचित् तौ मिलित्वा एकां महिषीं क्रीतवन्तौ तदा गोविन्दः उक्तवान् मित्रा, एतस्याः महिष्याः विषये आवयोः मध्ये कदापि विवादः मा भवतु अतः एवं कुर्वः अस्याः अग्रभागः भवतीयः भवतु पृष्ठभागः मदीयः भवतु इति मुकुन्दः अङ्गीकृतवान् ततः मुकुन्दः प्रतिदिनं तृणं पिन्याकम् इत्यादिकं महिष्याः अग्रे स्थापयति तस्य जलमपि ददाति गोविन्दः तु महिष्याः दोहनं कृत्वा सर्वमपि दुग्धं स्वयमेव स्वीकरोति पुनः कदाचित् तौ मिलित्वा एकं कम्बलं क्रीतवन्तौ तदातु तु गोविन्दः उक्तवान् मित्र एतस्य कम्बलस्य विषये आवयोः मध्ये विवादः मा भवतु अतः एवं व्यवस्था भवतु प्रातः आरभ्य सायं पर्यन्तं कम्बलं भवान् रक्षतु रात्रौ तु अहं रक्षामि इति मन्दबुद्धिः मुकुन्दः अङ्गीकृतवान् ततः दिने कम्बलं तस्य पार्श्वे भवति परन्तु तदा तस्य कोपि उपयोगः न भवति स्म रात्रौ यदा शैत्यं भवति तदा तु गोविन्दः आनन्देन तं कम्बलम् आच्छाद्य शयनं करोति एवं द्विवारमपि मुकुन्दः वञ्चितः अभवत् अतः कदाचित् कश्चन सत्पुरुषः तं ग्रामम् आगतवान् सः एतयोः वृत्तान्तं सर्वं ज्ञातवान् अनन्तरं मुकुन्दं कमपि उपायं सूचयित्वा गतवान् अनन्तरदिने प्रातःकाले गोविन्दः महिष्यः दोहनं कुर्वन् आसीत् तदा तत्र गतः मुकुन्दः दण्डेन महिषीं ताडयितुं प्रवृत्तः कुपिता महिषी दुग्धमेव नाप्रादात् किमर्थं भवान् करोति इति गोविन्दः पृष्टवान् मुकुन्दः उक्तवान् एतस्य अग्रभागः मदीयः तद्विषये यदा मह्यम रोचते तदा अहं करोमि इति तत् श्रुत्वा गोविन्दः तस्य क्षमां प्रार्थितवान् इतः परम् अर्धभागं दुग्धं भवते अपि ददामि इति अङ्गीकृतवान् तस्यां रात्रौ गोविन्दः यदा कम्बलम् अन्वेष्टुम् आगतवान् तदा मुकुन्दः कम्बलं जलपूर्णं पात्रे स्थापितवान् आसीत् तदा तं निष्कास्य सः किमर्थम् एवं करोति इति गोविन्दः अपृच्छत् सायं पर्यन्तं कम्बलः मदीयः यदा मह्यं रोचते तदा अहं करोमि इति उक्तवान् मुकुन्दः क्लिन्नस्य कम्बलस्य उपयोगं कर्तुमेव न शक्तः गोविन्दः सः मुकुन्दं क्षमां प्रार्थितवान् ततः आरभ्य सः रात्रौ अपि कम्बलस्य उपयोगाय मुकुन्दाय अवसरं कल्पितवान् पुषा मगदर्शन मुकुंदा अभी सुखी अभवत्